श्रीमन्महाभारतम् आदिपर्वणि अंशावतरणपर्वणि व्यासाद्युत्पत्तौ त्रिषष्टितमो अध्यायः वैशंपायन उवाच राजोपरिचरो नाम धर्म नित्यो महीपतिः बभूवमृगयां गन्तुं सदा किल धृतव्रतः रम्यं वसुः इन्द्रोपदेशाज्जग्राहरमणीयम् महीपतिः तमाश्रमे न्यस्तशस्त्रम् निवसन्तम् तपोनिधिम् देवाः शक्रपुरोगा वै राजानमुपतस्थिरे इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै तम् सान्त्वेन नृपम् साक्षात् तपसः सन्यवर्तयन् देवावूचुः न सङ्कीर्येत धर्मोऽयम् पृथिव्याम् पृथिवीपते धर्मो विधृतः कृत्स्नम् धारयते जगत् इन्द्र उवाच लोके धर्मं पालयत्वं त्वम् धर्मयुक्तस्ततो लोकान् पुण्यान् प्राप्स्यसि शाश्वतान् दिविष्ठस्य भुविष्ठस्त्वम् सखा भूतो मम प्रियः रम्यः पृथिव्याम् यो देशस्तमावसनराधिप पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान् स्वारक्ष्यश्चैव सोम्यश्च भोग्यैर्भूमिगुणैर्युतः अर्थवानेष देशो हि धनरत्नादिभिर्युतः वसुपूर्णा च वसुधावस चेदिषु चेदिप धर्मशीला जनपदा साधवः न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः युञ्जते धुरिनोगाश्च कृशान् सन्धुक्षयन्ति च सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानदा न तेऽस्त्यविदितम् किञ्चित् त्रिषु लोकेषु यद्भवेत् देवोपभोग्यम् आकाशगम् त्वाम् मद्दत्तम् विमानमुपपत्स्यते त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव ददामि देवै जयन्तीम् मालामम् लानपङ्कजाम् धारयिष्यति सङ्ग्रामे या त्वाम् शस्त्रैरविक्षतम् चैतदेवेह भविता तेन इन्द्रमालेति विख्यातम् धन्यमप्रतिमम् महत् यष्टिञ्च वैष्णवीम् तस्मै ददौ वृत्रनिषूदनः इष्टप्रदानमुद्दिश्य शिष्टानाम् प्रतिपालिनीम् तस्या शक्रस्य पूजार्थम् भूमौ भूमिपतिस्तदा प्रवेशम् कारयामास संवत्सरे तदा ततः प्रभृति चाद्यापि यष्टे क्षितिपसत्तमैः प्रवेश क्रिय प्रवर्तिपरेतस्त क्रियु्र नृपै अलंकता पिटकैर्गंधमाल्य भूषण मल्यम पक्षिता क्रियते चगवान्पू्य से चात्र हंसूपेण चे स्वये गृही तसु प्रीतिया महात्म सतां पूजा महेन्द्रस्तु दृष्ट्वा देवः कृतां शुभां वसुनाराजमुख्येन प्रीतिमानब्रवीत्प्रभुः ये पूजयिष्यन्ति नराराजानश्च कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः तेषाम् श्रीर्विजयश्चैव सराष्ट्राणाम् भविष्यति तथा स्फीतो जनपदो मुदितश्च भविष्यति एवम् महात्मनाथेन महेन्द्रेण न राधिप वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः उत्सवम् कारयिष्यन्ति सदा शक्रस्य ये नराः भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्तिते ते वरदानमहायज्ञैस्तथा शक्रोत्सवेन संपूजितो मघवता वसुश्चेदीश्वरो नृपः पालयामा सेंण चेदिस्थ पृथिवीमाी चेदिपतिेन्द्रम वसु पुत्राशा महवीर पंचा सन्नौज सहनाराज्यु चुता स सम्राडभ्यषेचयत महारथो मगधा विश्रुत यो बृहद्रथ